अथ द्वादशोऽध्यायः युधिष्ठिर उवाच प्रायशो राजलोकस्ते कथितो वदतां वरा वैवस्वतसभायां तु यथा वदसि मे प्रभो वरुणस्य सभायां तु नागास्ते कथिता विभो दैत्येन्द्राश्चापि भूयिष्ठ सरितःसागरास्तथा तथा धनपतेर्यक्ष गुह्यकाराक्षसास्तथा गन्धर्वाप्सरसश्चैव भगवांश्च पितामहसभायां तु कथितास्ते महर्षयः सर्वे देवनिकायाश्च सर्वशास्त्राणि चैव शक्रस्य तु सभायां तु देवास्सङ्कीर्तिता मुने उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने कथितस्ते सभायां वै देवेन्द्रस्य महात्मनः किं कर्म तेनाचरितं तपोवा नियतव्रता येनासौ सहशक्रेणा स्पर्धते सुमहायशाः पितृलोकगतश्चैव त्वया विप्रपिता मम दृष्टः पाण्डुर्महाभागः कथं वापि समागतः किमुक्तवांश्च भगवंस्तन्ममा चक्ष्वसुव्रता त्वत्तः श्रोतुं सर्वमिदं परं कौतूहलं हि मे नारद यन्माम् यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो तत्तेऽहं महात्म्यं तस्य धीमतः इक्ष्वाकोणां कुले जातस्त्रिशङ्कुर्नामपार्थिवः अयोध्यापतिरो विश्वास्थि तस् सत्यवती पत्नी केशजा तस् सेंण कु